नारायणीयं दशकं सेवेण्टि एय्ट् मीटर् ध्रुतविलम्बितं त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमद जलधिमध्यगदं त्वमभूषयो नवपुरं बभुरञ्जिदरोचिषा रेवद भू रेवती, हल तनयां ददुषिवूभिवी हलृदे तनयाधिशा सद महिदुत्सवूपुष सतर्त सह यादव अघ सुधां खलु णी प्रणयिनीं त्वयि देव देवसहोदरः स्वयमदित्सद चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् प्रणया त्वयि बालिका सपदि काङ्क्षिदभङ्गसमाकुला तव निवेदयितुं द्विजमादिश्यत्स्वकदनम् कथनङ्गविनिर्मितं द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराश दुरासदं मुदमवाप च सादरपूजितः भवदा भवदा पकृता स्वयं स च नृपसुता खलु राजदिरुक्मिणी त्वयि समुत्सुकया निजधीरता प्रहितया हि तया प्रहितोऽस्म्यहं तव कृतास्मि पुरैव गुणैरहं हरदि मां नृपोधुना चेदि नृपोऽधुना अयि कृपालय पालय मामि दिप्र जगदेकपदे तया अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् इति गिरासुतनो रतनोद्भृश्यं सुहृदयं हृदयं तव कातरम् नमये सखे तदधिकाममन्मथवेदना नृपसमक्षमुपेत्य हराम्यहं तदयितां दयितामसितेक्षणां प्रमुदितेन जतेन समं तदा रथगदो गुरुमरुत्पुरनायकमे भवान्ु इदनुदां तनुदामखिलापदां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्दगोविन्द